तस्य चार्तस्य तैर्वाक्यैश्चोद्यमानः पुनः पुनः आकृन्दे तत्र कौन्तेयश्चिन्तयामास दुःखितः धने तस्मिन् ब्राह्मणस्य तपस्विनः अश्रुप्रमार्जनम् तस्य कर्तव्यमिति निश्चयः उपक्षेपणजो धर्मः सुमहान् स्यान्महीपतेः यद्यस्य रुदतो द्वारि न रक्षणम् अनास्तिक्यम् च सर्वेषामस्माकमपि रक्षणे प्रतितिष्ठेत लोकेऽस्मिन्न धर्मश्चैव नो भवेत् अनादृत्य तु संशयः अजातशत्रोर्नृपतेर्मम चैवानृतम् भवेत् अनुप्रवेशे राजस्तु वनवासो भवेन्मम सर्वमन्यत् परिहृतम् तु महीपतेः अधर्मो वै महानस्तु वने वामरणम् मम शरीरस्य विनाशेन धर्म विशिष्यते